मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायम् फोर्टि फोर् सिन्दूरशिवसमागमम् श्रीगणेशाय नमः दक्ष उवाच धन्योहमुद्गलस्वामिं त्वत्सङ्गान्नात्र संशयः लोभशान्तिकरं चित्रं श्रुतं भक्त्याचरित्रकम् न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो वदक्षेत्रस्य माहात्म्यमधुना तस्य सर्वदं गजाननस्य भक्त्यर्थमवतारान् धृतान् वद महाभाग सर्वज्ञोऽसि नमः सुद उवाच दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुधः जगादतं महाभागं महाभागो दयान्वितः मुद्गल उवाच अवतारा अनन्ताश्च गजाननस्य मानद भक्तानां कार्यसिद्ध्यर्थं कथनं नैव तथापि शृणु दक्षत्वमवतारचरित्रकं गजाननस्य कथयामि समासेन सर्वदं पार्वत्याशङ्करेणैवाराधितो गणनायकः दिव्यवर्षसहस्रेण प्रसन्नो वरदो भवद ताभ्यां सम्पूजितो देवस्तुतसंयाचितो भवत। पुत्रो भव स्वामिन त्रो भवनौ स्वामी संसारोत्ति्यासौ गणेश पुत्रसींधुवधाया मयूरेश स्मृत हत्वा सिंधु महवीय गानंदक ं नावरास दधार शिवो अष्टोट्यवतरा गणेश प्रकीर्ति शिवपुत्रस््चा धेजिचिवात्सूता के केजिचक्रेहात्म उभयोर्योगतः केचित् कलांशा अभवन्परा यादृशं सङ्कटं प्राप्तं तदर्थं संस्मृदो विभुः तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः कृत्वा कार्यस्य संसिद्धिं पुनः स्वानन्दगो भवत तद्वियोगेन सन्तप्तौ शिवौ किल बभूवधुः अन्येनानावताराश्च कश्यपादि गृहेंशदः दृदा गजाननेनैव वक्तुं नैव प्रशक्यते इतिहाष्यं प्रवक्ष्यामि सर्वसिद्धिप्रदायकं गजाननावतारेण योक्तं शृणु प्रजापदे य कदा निद्रितं शम्भुर्ब्रह्माणम् प्रयौ प्रभुः किञ्चित् कार्यार्थमेवं तमुद्धाप्यस्वगृहे गमद स उद्धितो महाजृम्भां चकारक्रोधसंयुतः तस्माज्जाधपुमानेको रक्तवर्णसुभोषनः सुवासबहुलेनैव युक्तकाम इवापरः तं दृष्ट्वा ब्रह्मा जगादस महाबलं ब्रह्मोवाच कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागदो वद एवं पृष्टः देवं जगाद मेखनिस्वनः पुमानुवाच जृम्भायास्ते समुत्पन्नः पुत्रोऽहं देवनायक स्थानं नामाधिकं देहि भक्षणं विविधं पितः ततोर्तिकर्षितो ब्रह्मपुत्रं दृष्ट्वा महाद्भुतं ददौ तस्मै विशेषेण वरां स्तान् शृणुमानद सुवासबकुलं रक्तं वपुस्ते तेन सिन्दुर नाम नानाविधान् भोगान् भुङ्क्ष्व सर्वत्र समस्ते वै भविष्यति चराचरे ब्रह्माण्डजय संयुक्तो भवपुत्रममाज्ञया यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति क्रोधा दालिङ्गसेयं त्वं भस्मसातं करिष्यसि एवं नानावराण्डत्वा संस्थितं प्रपिधामहं तं प्रणम्य सिन्धूरो जगामास्तुत्य भूदले शौनक उवाच तपोहीनाय दादासौ ददौ सन् दुर्लभान् वरान् किम् कारणं वदप्राज्ञ संशयो मे महान्हृदि सूत उवाच इच्छासङ्कल्पसिद्ध्यर्थं तपस्तपदियो नरः विपुले सोऽपि तपसि मृदो यदि भवेन्मुने अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितं यदत्ते कथितं सर्वं संशयच्छेदनं वजः अधुना शृणु प्रकृतं यं विचारं मार्गमध्ये स गत्वा सिन्धुर आकरोद तपो हीनायापि देवो मे ददाधिवरं कथम् अदोहं वञ्चितो नूनं विधिना नात्र संशयः लिङ्गयित्वा मृदम् कुर्वे तं सत्यत्वदिदृक्षया निसंशयम् भवे देवं विचार्य सिन्धुरासुरः आययौ ब्रह्मणसोऽपि समीपे क्रोधसंयुतः गर्जयित्वा विधातार विधातारमालिङ्गितुं प्रचक्रमे तद्दृष्ट्वा परमाश्चर्यं ब्रह्मोवाच सुदारुणं ब्रह्मोवाच मद्वरस्य प्रभावेन मां हन्तुं समुपागतः दैत्योसि दैत्योऽसि दुष्टत्वमभाग्यान्नात्र संशयः पुत्रस्नेहेन रेदुष्ट रे दुष्ट वरा दत्तास्सु दुर्लभाः अदो गजाननस्त्वां वै हनिष्यदि कुलाधम यवमुक्त्वा पपालासौ विकुण्ठे शरणं ययौ नारायणं च सिन्धूरस्तमनुप्रययौ खलः नारायणाय वृत्तान्तं कथयामासविस्तराद सोऽपि श्रुत्वा विनिश्वस्य भवत्सम्पूज्य संस्थितः एतस्मिन्नन्तरे तत्र सिन्धूरश्च समागमद जगाद विष्णुमव्यक्तं वजक्रोधसमन्वितः सिन्धूर उवाच विष्णो रक्षविधातारं मां प्रसमागतं हनिष्यामि त्वया सार्धं पश्य मे पौरुषं परं विष्णुरुवाच अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः आवां भत्वा महादैत्य न यशस्ते भविष्यदि त्वदद्धीनौ न सिन्धूर आवां जानीहि मानद शङ्करः सर्वसंहर्ता स यस्य स्ते विष्णोर्वचनमा विष्णोर्वचनमाकर्ण्य त्यक्त्वा विष्णुं च दुर्मुखं जगामशङ्करं सद्य कैलासे युद्धलालसः ध्यानस्थं शङ्करं दृष्ट्वा विचारमकरोद्धृति अमुं नग्नं तपोयुक्तं किमर्धं हन्मि मूर्खवद वामाङ्गे संस्थितां नारीं रूपेणाप्रदिमां ना परां ताम् गृहीत्वा गमिष्यामि स्वेच्छया क्रीडानोत्सुकः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिरे सिन्धूरशिवसमागमो नाम चतुच्शोध्याय ओम